वित्महे ुतिकराय धीमहि तन्नो आदित्यः प्रचोदयात् अस्य श्रीसूर्यकवचमहामन्त्रस्य अगस्त्यो भगवान् ऋषिः अनट्टुच्छन्दः सूर्यो देवता श्रीम् बीजम् नीं शक्तिः सोऽङ्कीलकम् मम सूर्यप्रसादसिद्ध्यर्थे जपे विनियोगः जपाकुसुमसङ्काशम् द्विभुजम् पद्महस्तकम् सिन्धूराम्बरमाल्यम् च रक्तगन्धानुलेपनम् वाणिक्यरत्नखचितसर्वाभरणभूषितम् सप्ताश्वरसवाहम् च मेरुम् यान्तम् प्रदक्षिणम् एवासुरवरैर्वन्द्यम् रश्मिभिः परिवेष्टितम् सूर्यम् ध्यात्वा सुवर्नाभम् पटेच्छ कवचम् मुदा घृणिः पातु शिरोदेशम् सूर्यः पातु ललाटकम् आदित्योलोचने पातु श्रुतिः पातु दिवाकरः घ्राणम् पातु सदा पातु सदा पातु जगन्नेत्रः कण्ठम् द्वादशात्मा कटिम्पादौ सविता पातु शक्तिनी गुरू पादुरस्रेष्टो जानुनी पातु भास्करः जङ्गे मे पातु गुल्फो पातु द्विषाम्बलिः पादौ दिनमणिक्पादौ पादु मीत्रोऽखिलम् बभुः आदित्यकवचम् पुण्यमभेद्यम् योधारयति पुण्यात्मा भक्तिमान्सतु मानवः सर्वरोगमजादिभ्यो संवत्सरमुपासित्वा साम्राज्यपदवीम् लभे अनेकरत्नसंयुक्तम् स्वर्णमाणित्यभूषणम् कल्पवृक्षसमाकीर्णम् कथम् वकुसुमप्रभम् असेषरोगशान्त्यर्थम् सूर्यम् ध्यायेत्तु मण्डले सिन्दूरवर्णाय तु मण्डलाय सुवर्णरत्नाभरणाय तुभ्यम् पद्माभिनेत्राय सुपङ्कजाय ब्रह्मेन्द्रनारायण संरक्तजोर्णम् स सुवर्णतोऽयं सकुङ्कुमाभम् सकुशं स पुष्पम् प्रदत्तमादाय च हेमपात्रे सकहस्रभाणो भगवन् प्रसीद